अथ पञ्चनवतितमः सर्गः अथ शैलाद्विनिष्क्रम्य मैथिलीम् कोसलेश्वरः अदर्शयच्छुभजलाम् रम्याम् मन्दाकिनीम् नदीम् अब्रवीच्चवरारोहाम् चन्द्रचारुनिभालनाम् विदेहराजस्य सुताम् रामो राजीवलोचनः विचित्रपुलिनाम् रम्याम् हंससारस कुसुमैरुपसम्पन्नाम् पश्य मन्दाकिनीम् नदीम् नानाविधैस्तेररुहैर्वृताम् पुष्पफलद्रुमैः राजन्तीम् राजराजस्य नलिनीमिव सर्वतः मृगयूथनि पीतानि कलुषाम्भांसिसाम्प्रतम् तीर्थानि रमणीयानि रतिम् सञ्जनयन्ति मे जटाजिनधराः काले वल्कलोत्तरवाससः ऋषयस्त्ववगाहन्ते नदीम् मन्दाकिनीम् प्रिये आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवः एते परे विशालाक्षि मुनयः संशितव्रताः मारुतोद्धूतशिखरैः प्रवृत्त इव पर्वतः पादपैः पुष्पपत्राणि सृजद्भिरभितो नदीम् क्वचिन्मणिनिकाशोदाम् क्वचित् पुलिनशालिनीम् क्वचित्सिद्धजनाकीर्णाम् पश्य मन्दाकिनीम् नदीम् निर्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् कोप्लूयमानानपरान् पश्य त्वम् तनु मध्यमे पश्यैतद्वल्गुवचसो रथाङ्गाह्वयना द्विजाः अधिरोहन्ति कल्याणि निष्कूजन्तः शुभागिरः दर्शनम् चित्रकूटस्य अधिकम् पुरवासाच्च मन्ये तव च दर्शनात् विधूतकल्मषैः सिद्धैस्तपो दमशमान्वितैः नित्यभिक्षोभितजलाम् विगाहस्व मया सह सखीवच्च विगाहस्व सीते मन्दाकिनीम् नदीम् पुष्कराणि च भाविनि त्वम् पौरजनवद्याला नयोऽध्यामिव पर्वतम् मन्यस्वलिते नित्यम् सरयूवदिमाम् नदी लक्ष्मणश्चैव धर्मात्मा मन्निदेशे व्यवस्थितः त्वम् वैदेहि प्रीतिम् जनयति मम उपस्पृशम् स्त्रिश्रवणम् मधुमूलफलाशनः नायोऽध्यायै न राज्याय स्पृहये सुपुष्पिताम् पुष्पभरैरलङ्कृताम् न सोऽस्ति यस्यान्न गत क्लमः सुखी इतीव रामो बहु सङ्गतम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे पञ्चनवतितमः